ईश्वरस्तोषितः पार्थ देवदेव उमापतिः स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले एकैकः प्रसवस्तस्माद्भवत्यस्मिन् कुले सदा तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे एका मम कन्येयं कुलस्योत्पादिनी भ्रशम् पुत्रो ममायमितिमे भावना पुरुषर्षभ पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ तस्मादेकः सुतो योऽस्याञ्जायते भारतत्वया एतच्छुल्कं भव त्वस्याः कुलकृज्जायतामिह एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव सतथेति प्रतिज्ञायतां कन्यां प्रतिगृह्य च उवासनगरे तस्मिंस्तस्रः कुन्तीसुतः समाह तस्यां सुते समुत्पन्ने परिष्वज्यवराङ्गनाम् आमन्त्रे नृपतिं तन्तु जगामपरिवर्तितुम् इति श्रीमहाभारते आदिपर्वणि अर्जुननवनवासपर्वणि चित्राङ्गदासङ्गमे चतर्दशाधतमोध्याय